मुद्गलपुराणं खण्डं तु एकदन्तचरितम् अध्यायं तर्टि श्री श्रीगणेशाय नमः मुद्गल उवाच आगतं गणराजं स दृष्ट्वा ननाम ननामदण्डवद्भूमौ तं तुष्टाव यथामधि वसिष्ठ उवाच धन्या धरणीधन्यापितरौ तप आश्रमः विद्या व्रदादिमे धन्यं दर्शनात्ते पदस्य च त्वं कर्ता कारणं चैव कारणानां न संशयः गम्या गम्यमयप्रोक्तो वेदे वै वेदवादिभिः सर्वरूपश्च सर्वैस्त्वं हीन सर्वप्रकाशकः योगाभेदमयस्त्वं त्वां कथं स्तौमि गणाधिप तथापि भक्तिपाशेन यन्द्रितस्त्वं गजानन अनुग्रहार्थमायादो नामरूपधरः प्रभो त्वद्दर्शनजबोधेन सौम्यं ब्रमनायकं वेदि सहास्तुतम योगिभ परम नमस्ते गणनाथा नमस्तेसाक्षिणे सर्वाकारा वैदुभ्यं वेद्याय ते नम सिबुद्धिपेतुभ्यं सिबुद्धि प्रदा च अमे यशक्तये देवदेवतुभ्यं नमो नमः असम्प्रज्ञादतुण्ठाय सम्प्रज्ञादशरीरिणे तयोर्योगे ज योगात्मदेहाय तु नमो नमः शान्तियोगप्रकाशाय शान्तियोगमयाय ते योगिभ्यो योगदात्रे जयोगेशाय नमो नमः वक्रतुण्डाय वैतुभ्यमेकदन्तधराय च ब्रह्माकारात्मकानां नमः स्तुवतस्तस्य हर्षेण कण्ठरोधः समाभवद ननर्थ हृष्टरो निमग्नं तं भक्रिरस्ये वीक्ष्य देवो गजाननः तमुवाच महाभक्तं भावज्ञो भावपूरकः गणेश उवाच त्वया कृतमिदं वैयस्तोत्रं भक्तिरसप्रदं धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति मदीया भक्तिरचलातवानख भविष्यति स्मृतमात्रश्च ते गेहं यास्यामि मुनिसस्तम त्यवमुक्त्वा गणाधीशोऽन्तर्दधे मम पश्यद सोऽगं तं हृदये पश्यन् स्थितः शान्ति समन्वितः गाणपत्यस्वभावेन मूर्तिपूजापरायणः वसिष्ठोऽहं महाभागो योगिवन्द्यो बभूवः वसिष्ठ उवाच एतत् ते कथितं वत्स शान्तियोगप्रदं शुभं ज्ञानं तेनैव मार्गेण गणेशं भज भक्रिदः एवमुक्तप्रणं यादौ मुनिं पौत्रः पराशरः वनेगत्वा गत्वा चकारासौ तपः परमदारुणं पितामहेन यज्ञानं कथितं योगदं महद तादृशं साधितं तेन mm. योगभूमिक्रमेण च त्यक्त्वा भूमिं स्वयं योगी गणपत्यो बभूवः तस्य पुत्रत्वमापन्नो व्यासो विष्णुः स्वयं भगुः तथापि मुनिना तेन पत्न्या वत्सलया सह तपस्तप्तं गणेशस्य महात्मनः महा सङ्कल्पं पुत्रकामार्थं चकारसमः मुनिः गणराजस्वयं मे वैभविता पुत्र दशवर्षसहस्राैस्तं प्रसन्नो गणनायकः वरं दातुं समायादो भक्तिभावेन तोषितः तं दृष्ट्वा सहस्रोद्धाय प्रणम्य प्रकृताञ्जलीः तुष्टावसुस्थिरो भूत्वा पत्न्या सागमुदारधीः पराशर उवाच नमस्ते गजपत्राय नराकाराय दे नमः नरपुञ्जररूपाय गणेशाय नमो नमः निर्गुणाय गुणाधाररूपिणे परमात्मने परात्पराय देवायानादिसिद्धाय ते दे नमः अनन्ताननधाराय अनन्दपाण्यङ्घ्रिरूपिणे अनन्तविभवायैव गकाराय च ते नमः सर्वहीनाय देवाय मायाभ्यां वर्जिताय दे। सदा ब्रह्ममयायैव णकाराय नमो नमः तयोश्च स्वामिने तुभ्यं गणेशाय नमो नमः स्वानन्दवासिने पूर्ण भुक्तिमुक्तिप्रदायते किं स्तौमि देवदेवेश वेदवेदान्तकादिभिः सम्पादितं परं ब्रह्म त्वामधप्रणमाम्यहम् यदि तुष्टोऽसि देवेश तदा पुत्रो भव प्रभो आवयोर्गणनाथत्वं तदा मे स्यात् स्थिरं मनः अस्माकं कुलदेवश्च त्वमेकगणनायक ब्रह्मभावेन नित्यं त्वां भजामस्तत्र विघ्नभ पुत्रभावेन देवेश भजेयं संसृतौ ब्रह्मरूपो भवेक्ष मे श्रुत्वैवं वचनं तस्य पराशरमुनेरिदम् तमुवाजगणाधीशो भक्तं योगधरम् परम् गणेश उवाच त्वया यत् प्रार्थितं विप्र तत्सर्वं सफलं भवेद तव पुत्रो भविष्यामि गजासुरवधाय च त्वया स्तोत्रं कृतं यच्च तत् सर्वेच्चितदं भवेद भुक्तिमुक्तिकरं तेषां पठतां शृण्वतां नृणां एवमुक्त्वा दर्दधेसौ गणेशो ब्रह्मनायकः पराशरप्रसन्नात्मा सपत्नीको बभूवः ॐ तत्सदिश्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते पराशरवरप्रधानं नाम त्रिंशोऽध्यायः ओम्